हरि ओं श्रीजगदम्बिकायै नमः अथ देवी भागवत महापुराणे तृतीयस्कन्धे पञ्चदशोऽध्यायः व्यास उवाच संयोगे च सति तत्र भूपयो अहवायतुमपातयो क्रोधलोभवचयो समं ततः बभूवतुमलस्तु विमर्द संस्थित समृत चाप पार्थिव पृथ्ल बाहु युधाजी संयुत सबल निक वाह नृप वीरसेन संय संयुत धर्म अत्य संगरे पुत्री कात्म जिताय पार्थिव संस्थित सुरपते सम सबाणवृष्टिं विसृज पार्थिवो युधाजितं भीक्षणे सितञ्च गिरिं तडित्वान्निवसो य वृष्टिभिः क्रोधान्वितस्तत्यपराक्रमोऽसौ संवीरसेनो विशिखै शिलाशितै समारुणो धायशुगमैरजिम्मगै चिच्छेदबाणै च शिले मुखानसौ तेनैव मुक्तानतिवेगपातिन ते गजरथतुरगाणाम् सम्बभूवाति युद्धम् सुरनरमुनिसङ्गै वीक्षितम् चातिघोरम् वितभ्य गवृन्दैः आवृतम् आवृतं सद्य पिषितमसि त्वकामेकाकगुरुध्रादिभिः च तत्राद्भुता क्षतजसीन्धुर्वाहोरा वृन्देभ्य एव गजवीरतुरङ्गमाणाम् त्रासा वहानयनमार्गगता नराणाम् पापात्मताम् रविजमार्गभवेव कामम् कीणानि भिन्नफुलिने नरमस्तकानि केशावृतानि च विभान्ति यथैव सिन्धौ तुम्बिफलानि विहितानि वह सुगामी बालर्यथा रविसुताय प्रभवै च नवनम् वीरम् मृतं भुवि गतं पतितं वृथाद्वै गृध्र पलार्थमुपरि भ्रमतीति मन्ये जीवाप्यसो निज शरीरमवेक्षकान्तम् काङ्क्षन्त्य होतिविशु विवशोऽपि पुनः प्रवेतुम् अजौ हतोऽपि नृवर सुविमानरूढ सुम्मा साङ्के स्थितां सुरवधूम् प्रवदत्य भीष्टम् पश्याधुना मम शरीरमिदम् पृथिव्याम् बाणाहतम् निपतितम् करभोरुकान्तम् एको हतः रिपुणैव कथन्तरिक्षम् देवाङ्गनाम् समधिगम्य यतो विमाने तावत् प्रिया हुतवहे जग्रा का सबला सके युद्धे मृतौ चुभटो दिवसुतौत अन्ोन न शस्त्रहत सौ तघ््नुतुरल परमािता कलहकुल कश्चिद् युवासमधिगम्य सुराङ्गनां वै रूपाधिकां गुणवतीं किल भक्तियुक्ते स्वीयान् गुणान्त्रवितताम् प्रवदन्त दासो तां प्रेमधामनु चकादशयोगयुक्ते भौमम् रजोति विदतं दिवि संस्थितञ्च रात्रिं चकारतरणिञ्च समावृणोद्य मग्नम् तदेव रुधिरम् बुनिधावकस्मात् प्रदुर्बभूवरविरप्यति कान्तियुक्तः कश्चिद्गतस्तु गगनम् किल देव कन्याम् सम्प्राप्य चारुवदनां किल भक्तियुक्ताम् नाङ्गी चकार चतुरो व्रतनाश भीतो यस्यत्ययम् मम वृथा ह्यनुकूलशब्द सङ्ग्रामे समृते तत्र युधा जीत् पृथिवीपतिः जघान वीरसे नन्तं बाणे तीव्रे सुदारुणे निहते स पपातुर्व्यां छिन्नमूर्धा महीपतिः प्रभग्नं तद्भरं सर्वं निर्गतं च चतुर्दिशं मनोरमाह सं पितरं ऋणमूर्धनि भयत्रस्थात सञ्जाता पितुर्वैरं मनुस्मरन् हनिष्य पुत्रुराशय राजोभन पापा चिंता पर भव कौमे क्वाता भर्ता चात पुत्रोय मम बालक नोती वच पापीठ तेन कौ न वचीकुराठ पापम पा कि सत्तम पितरम् मातरम् भ्रातुन् गुरुन् स्वजनबान्धवान् हन्त्ये लोभसमाविष्टो जनो नात्र विचारणा भक्षणम् लोभागम्यागमनम् तथा करोति किल कृष्णा तु धर्मत्यागम् तथा पुनः न सहायोऽस्मि कश्चिन्नगरेऽत्र महाबलय यदाधारे स्थिता चाहम् पालयामि सुतं शुभम् हते पुत्रे नृपेणाद्य किं करिष्याम्यहम् पुनः न मेत्रा सा भुवने येन वै स्वस्थिता ह्ययम् सापि वैरयुता कामम् स पत्नी लीलावती न पुत्रे भविष्यति दयावती युधाजति समायाति न मे निस्तरणम् भवेत् ज्ञाताबालम् सुशोद्य कारागारम् नैषति श्रूयते हि पुरेन्द्रेण मातुर्गर्भगतशिशु प्रत सप्तधा पश्चात् कृतास्ते सप्त सप्तधा प्रविश्य चोदरं मातु करे कृत्वार्पकं भवीम् एकोनपञ्चाशदपि ते भवन्वृतो दिवि सपत्न्यैगरलं दत्तं दपत्य नृपभार्यया गर्भनाशासमुद्दिश्य पुरैतद्वै मया श्रुतम् दातस्तु बालक पश्चाद्देशय ते नासौ सगरो नाम विख्यातो भविमण्डले जीवमानोऽथ भर्ता वै कैकय्या नृपभार्यया रामप्रवराजतो ज्येष्ठो मृतो दशरथो नृप मन्त्रिण तु अवशा कामं ये मे पुत्रं सुदर्शनं नमे भ्राता तथा शूरो यो माम् बन्धात् प्रमोचेत् महत्कष्टम् च सम्प्राप्तम् मया वै दैव योगतः उद्यमः सर्वतः कार्य सिद्धिर्दैवाधिरायते उपायम् पुत्ररक्षासं करोम् यद्य त्वरान्विता इति सञ्चिन्त्य सा बाला विदल्लम् चातिमानिनम् निपुणम् सर्वकार्येषु चिन्त्यम् मन्त्रिपरोत्तमम् समाहूय तमेकान्ते प्रोवाच बहुदुःखिता गृहीत्वा बालकं हस्ते रुदती दीनमानसा पिता मे निहत सङ्ख्ये पुत्रोऽयम् बालकस्तदा युधाजिद्बलवान् राजा किं विधेयं मदस्वमे तामुवाच विदल्लोसु नात्र स्थातव्यमेव च गमिष्यामो वदे तत्र मे मातुल श्रीमान् वर्षदे बलवत्तरः सुबाहु इति विख्यातो रक्षिता स भविष्यति यदाचित् दक्षिणोत्कण्ठ मनसः नगरात् बहि निर्गत्य समारोह्य गन्तव्यम् न तु संशयः गत्वा लीलावतीम् प्रति उवाच पितरम् द्रष्टुम् गच्छाम्य सुलोचने इत्युक्त्वा समारोह्य सैरन्ध्रे संयुता तदा मेदल्लेन च संयुक्ता निःसृता नगराद् बहिः तत्ता ह्या त्रिकर्पणा पितुशोकसमाकुला दृष्ट्वा युधायुधम् निषादेर्लुण्ठिता तत्र गृहीतम् सकलम् वसु रथञ्चापि गृहीत्वा ते निर्गता दस्यवशदा रुदति सुतमादाय चारुवत्रा मनोरा निर्ययो जानवीतीरेन्द्रधीकर लम्बिता आरुह्य च भया शीघ्रम् उडूपम् सा भया ययो त्रिकूटपर्वतम् भारतद्वाजाता निर्भया तदा मुनिना सा तृष्टा काशी कस्य परिग्रह कष्टेनात्र कथं प्राप्ता सत्यं ब्रूहि शुचिष् देवे वा मानुषे वासी बालपुत्रावने कथं राजभ्रष्टैव मामोरु भासे कमलेक्षणे एवं सा मुनिना पृष्टा नोवाच वरवर्णिनी रुदती दुःखसन्तप्ता विदल्लम् च समादिशत् विदल्लस्तम्भवाचैदम् ध्रुवसन्धि नृपोत्तमः तस्य भार्या धर्मपत्नी नाम्ना चेयं मनोरमा सिंहेन नियतो राजा सूर्यवंशी महाबले पुत्रोऽयम् नृपते तस्य नाम्ना चैव सुदर्शिनहे अस्या पिता धर्मात्मा दौहित्रार्थम् मृतोरणे लदाचिद्वयसन्त्रस्ता सम्प्राप्ता विजनैवने तामेव शरणम् प्राप्ता बालपुत्रात्मजाता भव महाभाग तम् अस्यामुनिषत्तमः आष्टस्य रक्षणे पुण्यम् यज्ञाधिकमुदाहृतम् भयत्रयस्तस्य दीनस्य विशेषफलम् स्मृतम् ऋषि उवाच निर्भयावसकल्याणि पुत्रम् पालयतु व्रते न ते भयम् विचाराक्षि कर्तव्यं चतुर्सम्भवम् पालयस्वकान्तं राजा तेयं भविष्यति नात्र दुःखम् तथा शोकम् कदाचित् सम्भविष्यति व्यास उवाच इत्युक्ता मणि नाराधि स्वस्था कुटजे मुनिना दत्ते वीतशोका तदावसर सैरन्ध्री सहिता तत्र विदल्लेन च संयुता सुदर्शनं पारय न्यवसत् सा मनोरमा इति श्रीमद्देवी भगवते मा पुराणे षादश्यां संहितायां तृतीयस्कन्धे मनोरमया भारद्वाजाश्रमं प्रतीगमनं नाम पञ्चदशोऽध्यायः श्री अम्बिकायार्पणमतु श्रीजगदम्बिकायार्पणमतु